कुमारसम्भवं सर्गं फोर्टीन् रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्ताय स्त्रिदशार्जिगीषुणा महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यदधृतं स दुर्निवारमनसोऽधिवेगिनं जयश्रियः सुदुःसहम् विजित्वरं नाम तदा महारथम् धनुर्धरशक्तिधरोऽध्यरोहयत सुरालयश्रीविपदाम् निवारणं सुरारिसम्पत्परितापकारणं केनापि दध्रेष्यविरोधिधारणं सुचारु चामीकरकर्मवारणम् शरच्चन्द्रचन्द्रमरीचिपाण्डुरैः संविद्यमानो वरचारुचामरैः पुरःसरैकिन्नरसिद्धचारणैरणे चुरस्तूयदवाग्भिरुल्बणैः प्रयाणकालोचितचारुवेशभृद्वज्रं वकन्पर्वत पक्षधारणम् ऐरावदं स्पाटिक शैलसोदरं तदोधिरुह्यद्युपदिस्तमन्वगाद् तमन्वगच्छद्गिरिशृङ्गसोदरं मदोद्धदमेषमधिष्ठितशिखि विरोधि विद्वेषरुषाधिकं ज्वलन्महो महीयस्तरमायुधं दधद अधेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् अधिष्ठिधकासरमुद्धरं मुदा वैरस्वदो दण्डधरस्तमन्वगाद मदोद्धदं प्रेतमधाधिरूढवांस्तमन्धकद्वेषितनूजमन्वगाद महा सुरद्वेष विशेषभीषणसुरोषणश्चण्डरणाय नैरृतः नवोद्यदम्भो धरघोरदर्शने युद्धाय रूढो मकरे महत्तरे दुर्वारपाह्वो वरुणो रणोल्बणस्तमन्वीयाय त्रिपुरान्तकात्मजम् दिगम्बराधिक्रमणोद्बणक्षणान्मृगं महीयांस मरुद्धविक्रमम् अधिष्ठितः सङ्करकेलिलालसो मरुन्महेशात्मजमन्वगादृतम् विरोधिनां शोणितपारणैषिणीं गदामनूनां नरवाहनोऽ वहन् महाहवाम्भोधि विगाहनोद्धतं यासु मन्वागमदीशनन्दनम् महाहिनिर्बद्धजडाकलापिनोज्ज्वलत्रिशूलप्रबलायुधायुधे रुद्रास्तुषाराद्रिसखं महावृषं तदोधिरूढास्तमयुः पिनाकिनः अन्येऽपि संनह्यमदारणोत्सवश्रद्धालवस्वर्गिगणास्तमन्वयुः स्ववाहनानि प्रबलान्यधिष्ठिदा प्रमोद विस्मेरमुखाम्बुजश्रियः दण्डसङ्गुलाश्चञ्जद्विचित्रात्तपवारणोज्ज्वलाः चलधनस्यन्दनघोषभीषणा करीन्द्रखण्डारव चण्डचीत्कृताः पुरद्विचित्रायुधकान्तिमण्डलैरुद्योदिताशावलयाम्बरान्धराः वाहन कोला दिवौकसां सोनुवहन्महाचमुक्पिनाकपाणेस्तनयस्तदोयौ कोलाहलेनोच्चलतां दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः कनैर्निरुच्छ्वासमभूदनन्तरम् दिङ्मण्डलं व्योमतलं महीतलम् सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रदिनादमेधुराः नभोन्द कुक्षिम्भरयो खनास्वना निहन्यमानैपडहैर्विधेनिरे प्रमध्यमानाम् प्रमध्यमानाम्बुधिगर्जतर्जनैसुरारि नारीगणगर्भपादनैः नभश्च ना मूधूलिकुलैरिवाकुलं ररासगाढं पटहप्रदिस्वनैः क्षुण्णं रथैर्वाजिभिराहदं खुरैः करीन्द्र कर्णैः परितः प्रसारितम् धूदं ध्वजै काञ्चनशैलजं रजो वादैर्हदं व्याम समारुहत्क्रमाद कादं खुरैरद्य तुरङ्गपुङ्गवैरुपत्यकाहाटकमेदिनीरजः गदं मुखरै समीरणैः सुविभ्रमं भूरि बभारभूयसा अधस्तधोर्ध्वं पुरतोध पृष्ठतोऽभितोऽपि चामी कररेणुरुचकैः चमूषु सर्पन्मरुदाहदो हरन्नवीन सूर्यस्य च कान्तिवैभवम् बलोद्धृतं काञ्चनभूमिजम्रजो बभौ दिगन्धेषु नभस्तले स्थितम् अकालसन्ध्या खनरागपिङ्गलम् खनम् खनानामिव वृन्दमुद्यतम् hey. हेमा वनीषु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखम् महागजाः रसातलोत्तीर्ण गजभ्रमात् क्रुधाद्दन्तप्रकाण्डप्रहृदा नि ते निरे सुजातसिन्धूरपरागपिञ्चरैकलं चलद्भिसुरसैन्यसिन्धुरैः शुद्धासु चामीकरशैलभूमिषु नादृश्यत स्वं प्रतिबिम्बमग्रदः लालसा इति क्रमेणामरराजवाहिनी महाहवाम्बोधिविलासलालसा अवातरकञ्जनशैलदोदृदं गोलाहलाक्रान्तविधूतकन्धरा महाचमूस्यन्दनचण्डचित्कृदैर्विलोलखण्डेभपदेश्च भृंहितैः सुरेन्द्रशैलेन्द्र महागुहाशया सिंहा महत्स्वप्नसुखं न तत्यजुः गम्भीरभेरीध्वनितैर्भयङ्करैर्महागुहान्तप्रदिनादमे दुरैः महारथानां गुरुनेमि निःस्वनैरनाकुलैस्तैर्मृगराजताजनि समुद्धिते न त्रिदिवौकसां महाचमूरवेणाद्रितडान्तदारिणा प्रभेदिरेके सरिणोऽधिकम् मदम् स्ववीर्य लक्ष्मीमृगराजदावशाद भियासुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं त्रुतम् मृगाः गुहा गृहान्ताद्बहिरेत्यहेलया तस्तुर्विशङ्गं नितरा मृगाधिपाः विलोकिता कौतुगिनामरावदीजनेन जुष्टप्रमदेन दूरतः सुराचलप्रान्तभुवः प्रपेदिरे सुविस्तृताया प्रसरं सुसैनिकाः पिधासिधैसुराचलप्रान्तस्थितैर्धादुरजोभिरम्बरम् अयत्नगन्धर्वपुरोदयभ्रमं बभारभूम्नोत्पतितैरितस्ततः महास्वनसैन्यविमर्दसम्भवकर्णान्तकूलङ्कषतामुपेयिवान् पयो निधेहे क्षुब्धतरस्य वर्धनो बभूव भुम्ना भुवनो दरम्भरिः महागजानां गुरु बृंहितैस्तधैः सुहेषितैः कोरतरैश्च वाजिनां कनैरथानां गुरुचण्डचीत्कृतैश्चिरोहितोऽभूत् पडहस्य निःस्वनः महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु च ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्तौ सुरसैन्यजं रजः विलोक्यस्त घनैर्विलोक्यस्तगिदार्कमण्डलैश्च मूरजोभिर्निजितं नभस्तलम् अयायि हंसैरभिमानसं घनभ्रमेण सानन्दमनर्तिकेकिभिः सान्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैरभिश्रुदैः चकाशिरे स्वर्णमया महाध्वजा परिस्फुरन्तस्तटितां गणा इव विलोक्यधूलिपटलैर्भृश्यम्भृतं द्यावा पृथिव्योरलमन्तरं महत किमूर्ध्वतो किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु चक्षुषोर्गदिः सूच्यग्रभेद्यै पृतना रजश्चयैराच्छादिदाप्राणिगणस्य सर्वतः दिगन्धदन्द्यावलिदानहारिभिर्विमानरन्ध्रप्रदिनादमेदुरैः अनेकवाद्यध्वनितैरनारतैर्जगर्जगाढं गुरुभिर्नभस्थलं भुवं विगाह्यप्रययौमः च मूक्वचिह्नमान्दी महतीं दिवं खलु सुसङ्कुलायामपि तत्र निर्भरात् किं कान्दिशी कत्वमवापनाकुला उद्धामदानद्विपवृन्दबृंहितैर्निदान्तमुत्तुङ्गतुरङ्गकेशितैः चलघनस्यन्तननेमि निःस्वनैरभून्निरुच्छ्वासमिवाकुलं जगद महागजानां गुरुभिस्तु गर्जितैर्विलोलखण्डारणितैरणोल्वणैः वीर प्रण प्रमुद प्रमेधुर्वाचा ला दधिरेतरा दिश दंदींद्रदान्रववारिवीजि सद्यो भी न्यो बहुधा पुपूरी दचोभिस्तुगै क्षदर्भृद्यरथ स्थलीकृताः निम्नाप्रदेशस्थलतामुपागमन्निम्नत्वमुच्चैरपि सर्वतश्च ते तुरङ्गमाणां व्रजतां खुरैः क्षदारथैर्गजेन्द्रैः परितः समीकृताः नभो दिगन्धप्रतिघोषभीषणैर्महामहीभृत्तडदारणोल्वणैः पयोधिनिर्धूननकेलिभिर्जगद्बभूव भेरीध्वनितैः समाकुलम् इतस्तदवादविधूतचञ्चलैर्नो रन्ध्रिताशागमनैर्ध्वजांशुकैः लक्षैः क्वनत्काञ्चनकिङ्किणीकुलैरमज्जिधूलीजलद्धौ नभो नभोगदे। खण्डारवैरौद्रतरैर्निरन्तरं विसृत्व रैर्गर्जरवैः सुभैरवैः मत्तद्विपानां प्रथयां बभूविरे न वाहिनीनां पडहस्य निःस्वनाः करालवाचालमुखाश्च मूस्वनैर्ध्वस्ताम्बरा वीक्ष्य दिशो गहनैर्दिनेश्वरो रजोऽन्धकारै परिधकुदोऽप्यसौ आक्रान्तपूर्वा रभसेनसैनिकैर्दिगङ्गना व्योमरजोऽभिदूषिता भैरीरवाणां प्रदिशब्दितैर्घनैर्जगर्जगाढं खनमत्सरादिव गुरु समीर समीभूरा इव गजागनम विजगाखि गुरधरा इव वारीधरारधा भुवम दीह विवर्त इवाद बलवदसुरलोकानपक निरवय यंोराशयो घोरघोषा गुरुधर परिमज्जद्भूभृदो देवसेना ववृधुरपि सुपूर्णा व्योम भूम्यन्तराले ओ